श्रीहरे नमः श्री श्रीसुख उपाच निसंयकौशारविणोपवर्णितां हरे कथां कारणसुकरात्मनः पुनः नचाति तृप्तो विदुरो धृतव्रतः पितुर उवाच तेनैव तो मुनिश्रेष्ठहरिणा यज्ञमूर्तिना आदिदैत्यो हिरण्याक्षोः हत इत्यनु शुश्रुमां तस्य चोद्धरतक्षोणीं स्वदंष्ट्राग्रेण लीलया दैत्यराजस्य च ब्रह्मण् कस्मात् हेतोरभून्मृतः मैप्रेय उवाच साधुवीर त्वया पृष्टम् अवतारकथां हरेः यत्त्वं बृच्छसि मध्यानां मृत्युपासविसाधनीम् ययोत्थानपथः पुत्रो मुनिना गीतया अर्बकः मृत्यो कृत्वैव बोध्यन् अङ्घ्रिम् आरुरोह हरेः पदं तथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ब्रह्मणा देवदेवेन देवानाम् अनुपृच्छताम् दिदीर्दक्षायणीषत्तर् मारीचं कश्यपम्पतिम् अपत्यकामासकमे संध्यायां हृश्चयार्धिताम् इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिं निम्लोचत्यर्घ आसी एष विद्वन् काम आत्तसरासनः धुनोति दीनां विक्रम्य रम्भामिव मदङ्गजः तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिहेर्प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् भर्तर्याप्तोरुमानानां लोकानाविसते यशः पतिर्भवद्विधोयासां प्रजया ननु जायते पुरापिता नो भगवान् दक्षो दुहितृवत्सलः कम्व्रीणितवरं वत्सा इत्यपृश्च नः पृथक् स विद्वा भावं सन्तानभावनः त्रयोदशा ददात्ता यास्ते शीलमनोव्रताः अत मे कुरु कल्याण कामं कञ्चविलोचन आर्तोपसर्पणं भूमन् अमोघं हिमहीयसे इति तां वीरमारी च कृपणां बहुभाषिणीं प्रत्याहानुनयन्वाचा प्रवृद्धानङ्गकस्मलां येषहं विधास्यामि प्रियं भीरु यदिश्च तस्याकामं तस्य कामं न कुर्यात् स्वाश्रमेण फलत्रवान् व्यसनार्णवमत्येति जलया नैर्यथार्वणं यमाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनी यस्यां सदुरमध्यस्य पुमांश्चरति विज्वरः यमाश्रित्येन्द्रिया रातीन् दुर्जयान् वयं जय मे हे लाभेर्दस्युर्दुर्गपतिर्यथा न वयं मनुकर्तुं गृहेश्वरे अप्यायुषवा कत्स्तेन ये चान् ये गुणकृनवः अथापि काममेतं ते यथा मां नातिवोचन्ति मुहूर्तं प्रतिपालय एषा घोरतमावेला घोराण्णां घोरदर्शनं चरन्ति यस्यां भूतानि भूते एतस्यां हेतस्यां सा सन्ध्यायां भगवान् भूतभावनः परितो भूतपर्षद्भेर् वृषणाढतिभूतराट् श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योधाकलाभः भस्मावकुण्ठामलरुग्मदेहो देवस्त्रिभिः पश्यति देवरस्ते न यस्य लोके स्वजनः परो वा नाद्यादृतो नोत कश्चित् विगर्ह्यः व्ययंव्रतैर्यश्च चरणापविद्धाम् आसा स्महेजां बदभुक्तभोगां यस्या नवद्याचरितं मनीषिणो कृणन्ध्यविद्यापटलं बिभित्सवहा निरस्तसां याति स हसन्ति यस्याचरिदं हि दुर्भगा स्वात्मन्रतस्यावितुषः समीहितं यैवस्त्रमाल्याभरणानुलेपने स्वभोजनं स्वात्मतयोपलालितं। पलालितं ब्रह्मादयो यत्कृतसेतुपालां यत्कारणं विश्वमिधं चमाया। आज्ञाकरी तस्य पि चाचर्या अहो विभूम्नश्चरितं विडम्बनं मैत्रेय उवाच सैवं संविदिते भर्द्रा मन्मथोन्मदितेन्द्रिया जग्राहवासो ब्रह्महर्षेर्वृषलीव गतत्रपा सविदित्वात भार्यायास्तं निर्बन्धं विकर्मणि नत्वाधिष्ठाय रहसि तयोतोपविवेशः अतोपस्पृश्य सलिलं प्राणानायं यवाग्यतः ध्यायज्यजापविरजं ब्रह्मज्योतिसनातनं दितिस्तु व्रीडिता तेन कर्मावत्येन भारत उपसङ्गं य अतोमुद्यभाषता दितिरुवच मामे दर्भमिमं ब्रह्मण् भूतानां वृषभोवधीत रुद्रः भूतानां यस्याकरवमं हसं नमो रुद्राय महते देवायोग्राय मीडुषे शिवाय न्यस्तदण्डाय त्रिदण्डाय मन्यवे स नः प्रीसिदथाम् भामो भगवानुर्वनुग्रहः व्यासस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः कश्यपवाच अप्रयात्याधात्मनस्ते दोषान्मौहीर्तिकाधुता मन्निदेशादिचारेण देवानां चातिहेलनाद् भविष्यतस्तवा भद्रा वभद्रे जाटराधमो लोकान् सपालां स्त्रीं शण्डीं प्राणिनां हन्यमानानां दीनानाम् अक्रुधागसां स्त्रीणां निगृह्यमाणानम् कोऽपि तेषु महात्मसो तदा विश्वेश्वरक्रुद्धो भगवान् लोकभावनः हनिष्यत्ववतीर्यासो यधा त्रीन् सतपर्वदृ दितिरुवाच भगवता साक्षात् सुनाभोदारबाहुना आसासे पुत्रयोर्मह्यं मागृद्धाद्ब्राह्मणाद्विभो न ब्रह्मदण्डदग्धस्य न भूतभयस्तस्य च नारकाश्चानुगृह्णन्ति यां यां भगवत्युरुमाना च भवेमय्यपि चाधरात् पुत्रस्यैव पुत्राणां भवितैकसतां मतः गाष्यन्दीयत्य सुशुद्धं भगवत्य योगैर्ह्येमेव दुर्वर्णं भावयिष्यन्ति साधवः निर्वैरादिभिः आत्मानं यच्छीलमनुवर्तितुं यत्प्रसादादिधं विश्वं प्रसीदति यदात्मकं तोष्यते अनन्य स वै महाभागवतो महात्मा महानुभावो महतामहिष्टः प्रवृद्धभक्त्या ह्यनुभाविदासये निवेश्य वैकुण्ठमिमं विहास्यते अलं पटशीलधरो गुणाकरो पृष्ठपरध्या व्यदितो दुःखितेषु अभूतशत्रोर्जकतसोकहर्ता नैदाघिकं तपामिव उडुराजः अन्तर्बहिश्चामलम् नेत्रं स्वपूरुक्षेक्षानुगृहीतरूपं पौत्रस्तव श्रीललानाललामं दृष्टा स्फुरत्कुण्डलमण्डिताननं मैत्रेय श्रुत्वा भाकवतं पौत्रम् अमोदत द्वित्यर्पुरुषम् पुत्रयोश्च वधम् कृष्णाद् विदित्वा सीन्महामनाः इति श्रीभागवते महापुराणे तृतीयस्कन्ते द्वितीकस्यपसंवादे चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुर महराज के जय